हरिओं श्री सीताचंद्रभ्या अथ श्रीमद वाल्मीकि युद्ध कांडे चुपंचाश्स वज्रद्र अंगद्धम अंगदेन च घातेन अंगद से बल चस क्रोधमाविस्ट वज्रद्रो महाबल है विस्फार्य च धनुर्घोरम् चक्राशनि समप्रभम् वानराणाम् अलीकानि प्राकिरक्षरवृष्टिभिः राक्षसा चापि मुख्यास्ते रथेषु समवस्थिताः नाना शूरः प्रायुध्यन्तः सदारणे वानराणां च शूरास्तु ते सर्वे प्लवगर्ष अयु्यंत शिला समेता साम तुध सहसा तस्न्युने भजक्षस कपी मुख्यु पातयाचक्रीरेतरा वानरा चक्षसु गिरी वृक्षा महाशिला प्रवीरा पातयामासु। मत्त वारिण सन्निभ शूराणाम् युद्धमानानाम् समरेष्वनिवर्तिनाम् सद्राक्षसगणाम् च सुयुद्धम् समवर्तत प्रभिन्न शिरस केचित् छिन्न पादैश्च बाहुभिः शस्त्रे आर्जितदेयः रुधिरेण सम्मुक्षितः हरि ओ राक्षसा चैव शेरते गां समाश्रितः कङ्कगृध्र बलाढ्याश्च गोमायु कुलसङ्कुलः कबन्धानि समुत्पेतु भीरूणां भीषणानि वै भुजपाणि शिरच्छिन्ना चिन्नकायाश्च भूतले वानरा राक्षसा चापि निपेतु तत्र भूतले ततो वानरसैन्येन हन्यमानम् निशाचरम् प्राभज्य बलम् सर्वम् वज्रदंशस्य पश्यत् राक्षसाम् भयवित्रसाम् हन्यमानान् प्लवङ्गमयि दृष्ट्वा स रोषताम् राक्षो वज्रदंश्च प्रतापवन् धनुष्पाणि त्रासयन् हरिवाहिनीम् चरि विदारयामास कङ्कपत्रैरम् जिम्मगै बिभेत वा नरन् तत्र सप्ताष्टो नव पञ्च च देव्याध परम क्रुद्धो वज्रदाष्ट सर्वे हरिगणः चरैः संकृत्य देहिन अंगदं सम्प्रधावन्ति प्रयापतिमिव प्रजा चतुरीगणान् भग्नान् दृष्ट्वा सुतस्तदा क्रोधेन वज्रदंष्टम् तम् उदीक्षन्तमुदैक्षत वज्रदंष्टोऽश्चोभौ यो युध्ये ते परस्परम् चेरतु परम क्रुधौ हरिमत्तः गजो इव तत शतसहस्रेण हरिपुत्र जघानुअ्नी शिखोपमयी रुधिरोेप वज्रदा वृक्ष पराक्रम दृष्टा पतं तम तम वृक्ष असंभ्रांत राक्षस बहुधा सोपी थित प्रापत भुवि तद्दृष्ट्वा वज्र नष्टस्य विक्रमं प्रगर्श भय प्रगृह्य विपुरम् शैलम् चिक्षेप च ननाद च तम् आपतम् तम् दृष्ट्वा स रथादाप्लुत्य वीर्यवरम् गदापाणि सम्भ्रान्त पृथिव्याम् समतिष्ठत अङ्गदेन शिलाक्षिप्ता क्षिप्ता गत्वा तूरणमूर्धनी स्वचक्रकूबरं शाश्वम् प्रममाथ रथम् ददा ततोऽन्य शिखरं विपुलं विपुलम् द्रुमभूषितम् वज्रदंष्टश्च शिरसि पातया मास वानरः अभवत् शोणितोद्धारी वज्रदंष्ट मूर्छितः मुहूर्तम् अभवन् मूढु गदाम् आलिङ्ग्यनिश्वसन् स लब्धसंन्योगदया वाली पुत्रमवस्थितं जघादय परम क्रुद्धो वक्षो देशे निशाचर गदां त्यक्तः ततस्तत्र मुष्टियुद्धम् अकुर्वत् अन्योन्यम् ृदिरो दारिणो तौ तु प्रहारये जनित श्रमौ बभूवतु सुविक्रान्तौ अङ्गारक बुधौ इव सतः परम तेजस्वी अङ्गारय उत्पाट्य वृक्षं सितवान् आसीत् पुष्प फलर्युतः जग्राह चाशुभं जर्म विपुलं शुभम् किङ्किणी जालसञ्च्छन्नम् चर्मणा च परिष्कृतम् चित्वा च रुचिरान् मार्गान् चेरतु कपि राक्षसै चे नर्दन्तो जय काङ्क्षिणौ वने सहस्रै यशोभेताम् पुष्पितौ एव किञ्च गौ युध्यमानौ परिश्रान्तौ जानुभ्यामवनिङ्गतौ निमेषान्तरमात्रेण रङ्गरः कपिकुञ्जरः उदतिष्ठत दीप्ताक्षु दण्डाह त इवो रगः निर्मलेन सुधौतेन खड्गे नास्य महर्षिरः जघन वज्रदण्टस्य वालिसूनुर्महाबलः हृदि रोक्षितगात्रस्य बभूव पतितं तच्च तस्य परीक्ताक्षम् शुभम् खड्ग हतं चिर वज्रदंशम् हतं दृष्ट रक्षसा भय मोहितः त्रस्ताही अभवद्रं गङ्गाम् वध्यमाना प्लवङ्गम्री विषण् वदनादीना रिया किञ्चिदवा मुख तं वज्रधर प्रतापवाम् सबालिसु नो कुपसैन्य मध्ये जगाम शम्मयितो महाबल सहस्रनेत्र त्रिदशैवावृत इत्याशेषं रामायणे वाल्मीकि अधिका वेजतु युद्धकाण्डे चतुः पञ्चाशर्गः श्रीसीतारामचन्द्रार्मण मास्तु